श्रीहरये नमः अत त्रिंशोऽध्यायः राजोवाच ततो निर्गतेवनं उद्धवे निर्गते वनं द्वारवत्यां किमकरोद्भगवान् भूतभावनः ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः प्रेयसीं सर्वनेत्राणां तनुं सकतमद्यजत् प्रत्याकृष्टुं नयनम यत्र लग्नं न सेकुः कर्णाविष्टं न सरदि ततो यत् सदामात्मलग्नं यतिरं कवीनां दृष्ट्वा यच्च तत् सा यमीयुः दिवि भुव्ये च महोत्पातान् ष्ट्वा सुधर्मायां कृष्णः प्राग य धूनिधम् श्रीभगवानुवाच एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः मुहूर्तमपि न स्तेयमत्र नो यधुपुङ्घवाः बालाश्च वृद्धाश्च सङ्कोद्धारं व्रजन्द्वितः वयं प्रभासं यास्यामो यत्र या प्रत्यक् सरस्वती तत्राभिषिक्ष्यसूषयवपोक्ष्य सुसमाहिताः देवता पूजयिष्यामः स्नपनालेपनार्हणैः ब्राह्मणास्तु महाभाकान् कृतस्वस्त्ययना वयं गोपूहिरण्यवा शोभेर्घजा स्मर तवेश्मभिः विधिरेशे ह्यरिष्टग्नो मङ्गलायनमुत्तमं देवद्विजगवां पूजा भूतेषु परमो भवः श्रीशुक उवाच इति सर्वे समाकर्ण्य यदुवृद्धामधुद्विषः ततिनौ भि उत्तीर्य प्रभासं प्रययूरतैः तस्मिन् भगवताधिष्टं यदुदेवेन यादवाः चक्रुपरमया भक्त्या सर्वश्रेयोपबृंहितं ततस्तस्मिन् महापानम् पपुर्मैरेयकं मधो दिष्टविप्रंसीधति यो यत्रैव द्रश्यते मतिः महापानाभिमत्तानां वीराणां धृप्तचेतसां कृष्णमायाविमूढानां वी सङ्घर्षस्सु महानभूत् युयुधुक्रोधसम्प्रप्तो वेलायाम् आतदायिनः धनुर्भिरशिभिर्भल्लैर्गदापि स्तोमरष्टिभिः पतत्पथाकैरथकुञ्जरादिभिः करोष्ट्रगोपिर्महिषैर्नरैरपि मितः समेत्याश्वतरैसुधुर्मता यहञ्चरैर्तद्भिरिवद्विपावने प्रद्युम्न साम्बौ युधिरूढमस्सरौ अक्रूरभोजौ अनिरुद्धसात्यकीम् तु बत्सङ्ग्रामजितौ सुधारुणौ गतौ सिमित्रा सुरतौ समीयतुः अन्ये च ये वै निषढोल्मुखाधयक् सहस्रजिच्छदजिद्भानुमुख्याः अन्योन्यमासाद् माधान्तकारिता जग्र्मुकुन्देन विमोहिता भृशन् दासार्कवृष्ण्यन्दकभोजसात्त्वा मद्वर्भुता विसर्जना कुकुराकुन्तस्य मितस्ततस्ते विसृज्यम् अयुध्यन् पितृभिर्भ्रातृभिश्च स्वस्त्री यदौ हित्र पितृव्यमातुलैः मित्राणि मित्रैः सुहृतः सुहृद्भेर्ज्ञातिं स्वहन्यातय एव मूढाः सरेषु क्षीयमाणेषु भजमानेषु धन्वसु शस्त्रेषु क्षीयमानेषु मुष्टिभिर्जहृयेरकाः ता वज्रकल्पाह्यभवन् परिगामुष्टिनाभृताः जग्र्द्विषस्तै कृष्णेन वार्यमाणास्तु चन्दं च तेहें प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः हन्तुं कृदधियो राजन् आपन्ना आततायिनः अत तावपि संकृतौ उद्धम्य गुरुनन्दन एरकामुष्टिपरिगौचरन्तौ जज्ञतुर्युधि ब्रह्मसापोपसृष्टानां कृष्णमायावृतात्मनां स्पर्धाक्रोतक्षयं निन्द्ये वैणवोऽग्निर्यतावनं एवं नष्टेष्टु सर्वेषु कुलेक्षुस्वेषु केशवखा अवतारितो भुवो भार इति मेनेवशेषितः रामसमुद्रवेलायां योगमास्ताय पौरुषं तत्याजलोकमानुष्यं संयोज आत्मानमात्मनि रामनिर्याणमालोक्य भगवान् देवकीसुतः निशसादधरोपस्थे तोष्णीम् आसाद्य पिप्पलं रूपं भ्राजिष्णु प्रभया सवया दिशो वितिमिराकुर्वन् वितो म इव पावकः श्रीवत्साङ्गं घनश्यामं कौशेयां कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलं सुन्दरस्मितवक्त्राब्जं नीलकुन्दलमण्डितं पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलं कटिशूत्रब्रह्मसूत्रकिरीटकटकाङ्गतैः हारनूपुरमुद्रापि कौस्तुभेन विराजि लापरीताङ्गं मूर्तिमद्भिर्निजायुदैहे कृत्वो रौ दक्षिणे पातम् आसीनं पङ्गजारुणं मुसलावशेषाय कण्ठकृतेषुर्लुप्तगोचरा मृगास्याकारं तच्चरणं विव्यातमृगशङ्खया चतुर्भुजं तं पुरुषं दृष्ट्वा सकृत भीतप्पपात शिरसा पादयोरसो अद्विषः अजानता कृतमितम् पापेन मधुसूदन शन्तुमर्हसि पापस्य उत्तमश्लोकमे अनघा यस्यानुस्मरणम् नॄणाम् अज्ञानध्वान्तनाशनम् वतन्ति तस्य माया सा कृतं प्रभो तन्मासु जगि वैकुण्ठपाप्मानं मृगलुब्धं यथा पुनरकं त्वेभं नकुर्यां सदतिक्रमं यस्यात्मयोकरचितं न विधुर्विरिञ्चो रुद्रादयोश्च धनया पतयो गिरां ये त्वन्माययापि हितदृष्टय किं तस्येवयम् असद्गतयो गृणीमः श्रीभगवानुवाच मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे या हि त्वम् अदनुज्ञात इत्यादिष्टो भगवता कृष्णेन त्रिपरिक्रम्य तं नत्वा विमानेन दिवं ययौ दारुककृष्णपदवीम् अन्विच्छन्नधिगं यतां वायुं तुलसिकामोदम् आग्रायाभिमुखं ययौ तं तत्र तिक्मद्युभिरायुतैर्व्रतं ह्यस्वत्तमूले कृतके एतनं पथिं स्नेहप्लुतात्मानि पपातपादयो प्ररातवप्लुत्य स बाष्पलोचनः अपस्त्यतरणाम्बुजम् प्रभो दृष्टिप्रणष्टा तमसि प्रविष्टा दिशो न जाने न लभे च शान्तिं यथा निशायाम् उडुपे प्रणष्टे श्रीशुक इति ब्रुबति सूते वै रथो गरुडलाञ्छनः कमुत्पपातराजेन्द्रशाश्वध्वज उदीक्षतः तमन्वगच्छन् दिव्यानि विष्णुप्रहराणि च तेन अतिविस्मितात्मानं सूतमाह जनार्दनः श्रीभगवानुवाच गच्छद्वारवतीं सूतज्ञातीनां निधनम् इतः सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दसां द्वारकायां च न स्तेयं भवद्भिश्च स्वबन्धुभिः मया त्यक्तां समुद्रप्लावयिष्यति स्वं, स्वं परिग्रहं सर्वे आदाय पितरौ अर्जुनेन अपि ता सर्वे इन्द्रप्रस्थं गमिष्यत त्वं तु ज्ञानानिष्ट उपेक्षकः मन्माया रचनामेतां विज्ञायोपसमं व्रज श्रीशुक इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः तत्पादौ शीर्षण्यपाधाय दुर्मनः प्रययौ पुरीम् इति श्रीमद्भागवते महापुराणे एकादशस्तन्ते त्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमगराजी जय